अञ्जावद् दशकम् विराट् पुरुष उत्पत्ति व्यक्ता व्यक्तमितम् न किञ्चिदभवत् प्राक् प्राकृता प्रक्षये मायाम् गुणसाम्यरुद्ध विरुधौ त्वय्या लयम् नो मृत्युश्च च समभूत् नाग्नो स्थिति तत्रैकस्त्वमचेष्यता किल परानन्त प्रकाशात्मना कालकर्म गुणाश्च जीवनिवहा विश्वम् च कार्यम् विवो चिल्लीलारतिमे युषे त्वयि दत मयि भो शक्त्यात्मना तिष्ठता नो चेत् किम् गगनप्रसूनसदृशा भूयो भवेत् सम्भवा येयम् च द्विपरार्धकालविकता वीक्षांसि श्रोषात्मिका दृष्टम् स्वभावोऽपि च प्रादुर्भूय गुणान् विकास्य विदध तस्या स कायक्रिया माया सन्निहितो प्रविष्टवपुषा साक्षीति गीतो भवान् वेतैस्ताम् प्रतिबिम्बतो विविचिवान् जीवोऽपि नैवापरा कालादिप्रतिभोतितात भवता सञ्जोदिता च स्वयम् माया सा खलु बुद्धितत्त्वमसृज योऽसौ महानुच्यते तत्र सौ त्रिगुणात्मकोऽपि च महान् सत्त्वप्रदानस्वयम् जीवेऽस्मिन् खलु निर्विकल्पमहमेत् उद्बोधतनिष्पादका चक्रेऽस्मिन् स विकल्पबोधकमहम् तत्त्वम् महान् कल्वसो सम्पुष्टम् त्रिगुणैस्तमोति बहुलम् विष्णो भवत् प्रेरणा सोऽहम् च त्रिगुणक्रमा त्रिविदता कारिको भूयस्तैजसतामसा आद्येन सत्त्वात्मना देवानिन्द्रियमानिनो गृतदिश वादार्गपाशस्विनो वग्नीन्द्राश्च्युतमित्रकान् विदुविते भूमन्मानस बुद्ध्यहम् कृतिमिन चित्ताक्यवृद्यन्वितम् तच्छान्तः करणम् विभो तव बलात् सद्वांश्च एवाशृज जातस्तैजसतो दशेन्द्रियगण शब्दो जनित्वत् बल स्पर्शम् ततो मारुतम् तस्मातरूपमतो मघोतचरस तोयम् च गन्धम् मही एवम् मातवपूर्णपूर्वकलनात् आद्यात्यधर्मान्वितम् भूतग्राममिमम् त्वमेव भगवन् प्राकाशयस्तामसा एते भूदगणास्तदेन्द्रियगणा देवाश्च जाता व्रत नो चे कुर्बुवनान्तनिर्मितविदौ देवैरमीभिस्तदा त्वम् नानाविधसुक्तिर्नुदगुण तत्त्वान्यमोन्याविशन् चेष्टा शक्तिमुदीर्यथा निघटयन् हैरण्यमण्डम् अण्डम् तत्कलु पूर्वसृष्टसलिने अदिष्टत्सहस्रम् समा निर्बिन्दन्न कृदाश्चतुर्दश जगत् ध्रूपम् विराडाह्वयम् सागस्रैकरबाधमूर्धनिवहै निःशेषजीवात्मको निर्भातोऽसि मरुत्पुरादिवसम त्रायस्व सर्वा मया श्रीकृष्णगोविन्दहरिमुरारेः श्रीनाथनारायणवासुदेव